श्रीमद्भागवतमहापुराणं नवमस्कन्ध अथ विंशोऽध्यायः पुरुके वंश राजा दुष्यन्त और भरतके चरित्रका वर्णन् श्रीसुकुवाच पुरोर्वंशं प्रवक्ष्यामि यत्र जातोऽसि भारत यत्र राजर्षियो वंश्या ब्रह्मवश्चास्ति जगिरे जन्मे प्रचिन्मान्तस्तुतस्ततः प्रवीरोथ नमस्युर्वै तस्माच्चारूपदोऽभवत् तस्य, तस्य सुद्योरभुत्पुत्र तस्माद्बहुगुवस्ततः सय्याति तस्याहंसां हय्याति रौद्रस्वस्तत्सुतस्मितः तस्य। तस्य। दितेयुस्तस्य कुक्षेयौ तण्डिलेयु कृतेयुकः जलेयुः सन्ततेजश्च धर्मसत्यवृतेयवः दशैते सरसपुत्रावलेयश्चावशन् वमस्मिता पिता चामिन्द्रियाणीव मुख्यस्य जगदात्मनः ऋतेयोरन्तिभारो भूत्रयस्तस्यात्मजा नृप समते ध्रुवो प्रतिरथ कृण्वो प्रतिरथात्मजः तस्य मेधाति ते सस्मान्स्कृण्वाद्यादिजातयः पुत्रोऽभू सुतेरेभ्यो दुष्यन्त तस्तुतो मतः दुष्यन्तो मृगयां जातकर्णवास्रम्पदं गतः तत्रासीनां सप्रभयां मण्डयन्तीं न मायिमिव विलोक्य सद्यो मुहुं मुमुहे देवमायामिव श्रियम् लभासे ताम्बरारोहां भटैः कतिपयै मृतः तद्दर्शनप्रमुदितसंवृत्तपरिश्रमः प्रप्रक्षकामसन्तप्तः सहसंच्छलक्ष्णया गिरा का त्वं कमलपत्राचिकस्याशीर्षि अङ्गमे किं वाचिकीर्षितं तत्र भवत्या निर्जने वने व्यक्तं राजन्यतनयां वेदंस्म्यहं त्वां सुमध्य मे न हि चेत सकुंतलोवाच अधर्मे रमते क्वचे शकुन्तलोवाच विश्वामित्रात्मजैवाहं त्यक्ता मेनकया वने वेदैतन् भगवान् कर्णो वीरकिं करवामते आस्यतां हरविन्दाक्ष गृह्यताम् अर्हणं च न भुज्यतां उष्यतां यदि दृश्यन्तु उवाच उपपन्नम् इदं शुभ्रूजाताया कुशिकान्वये स्वयं हि वृणते राज्ञां कन्यकासदृशं वरम् ओमित्युक्ते यथा धर्मम् उपयेमे शकुन्तलां गान्धर्वविधिना राजा देशकालभिधानवे अमोघवीर्यो राजर्षेर्मम् दीर्यमादथे स्वभूते स्वपुरं यात काले नासूतसा सुतं कण्वकुमारस्य वने चक्रे समुचिता क्रियाः बद्ध्वा मृगेन्द्रास्तरसां क्रीडस्ति स्म स आदाय प्रमदोत्तमां हरिदंसांसम्भूतं भरतोम् अन्तिकमागमन् यदा न राजा भार्या पुत्रावनिन्दितौ त्रिण्वतां सर्वभूतानां खे वागाः शरीरिणे माता भस्त्रापितु पुत्रो येन जात च एव च भरस्वपुत्रं दुष्यन्त मावमंसा रेतोधा पुत्रो नयति नरदेवयमक्षया पञ्चास्य धाता सत्यमाह शकुन्तला